विभ्वश्च चमेः मे बर्हिः बर्हिश्च चमेः मे वेदिः वेदिश्च चमेधिष्णियाः धिष्णियाश्च चमेः मे स्रुचः श्रुतश्च चमेः मे चमसाः चमसाश्च चमेः मे द्रावाणः द्रावाणश्च समे मे स्वरवश्च समे म उपरवाः उपरवाश्च उपरवा समे उपरवा मेऽधिशवणे अधिशवणे च अधिशवणे इत्यधि श्रवणे चमे मे द्रोणकलशः द्रोणकलशश्च द्रोणकलश इति समे मे वायव्यानि समे मे पूतभृत पूतभृच्च पूतभृदिति पूतभृत चमे मा आधवनीयः नीयश्च आधवनीय इत्या धनीयः चमे मा आग्नेहेध्व्रम् आग्नेः्रम् च आग्नेः्रमित्यग्निध्वम् चमे मे हविर्धानम् च अविर्धानमिति हविः नम् क्षमे मे ग्रहाः ग्रहाश्च चमे मे सदः सदश्च समे मे पुरोडाशाः पुरोडाशाश्च समे मे पचताः पचताश्च क्षमे मेऽवभृतः अवभृतश्च अवभृत इत्यवभृथः चमे मे स्वगाकारः स्वगाकारश्च स्वगाकार इति स्वगाकारः चमे म इति मे